गर्गसंहिता खंडम टु वृन्दावनखण्डम् अध्यायं ट्वेण्टि त्रि रासक्रीडायां शङ्खचूडवधः श्रीनारद उवाच अथ कृष्णो गोपिकाभिः लोकजङ्घवनं व्ययौ वसन्तमाधवीभिश्चलदाभिः सङ्कुलं नृप तत्पुष्पदामनिचैहैः स्फुरत्सौगन्धिशालिभिः सर्वासां करिणा तत्र कबर्यो गुम्फितास्तदः भ्रमरध्वनिसंयुक्ते सुगन्धानिलवासिदे कालिन्दीनिकडे कृष्णो विचचारप्रियान्वितः करिल्लै ीलुभिष्यामैः तमालैः सङ्कुलद्रुमैः महापुण्यवनम् कृष्णो ययौ रासेश्वरो हरिः तत्र रासं समारेभिरासेश्वर्या समन्वितः गीयमानश्च गोपीभिरप्सरोभिः स्वराडिव तत्र चित्रमभुद्राजन् शृणुत्वं तन्मुखान् मम शङ्खचूडो मानयक्षो धनदानुचरो बली भूदले तत्समो नास्ति गदा युद्धविशारदः मन्मुखादौग्रसेनेश्च बलं श्रुत्वा महोत्कडं लक्षभारमयीं गुर्वीं गदामादाय यक्षराड स्वसकाशान्मधुपुरी माययौ चण्डविक्रमः सभायामास्तिदम् प्राह कंसं नत्वा मदोद्धतः गदायुद्धं देहि मह्यं त्रैलोक्य भवान् अहं दासो भवेयं वैभवांश्च विजयी यदि अहम् जयी चेद्भवन्तम् दासम् शीघ्रम् करोम्यहम् तथास्तु चोक्त्वा सस्तु गृहीत्वा महदीम् गदाम् शङ्खचूडेन युयुधे रङ्गभूमौ विदेहराट तयोश्च गतया युद्धम् घोररूपम् बभूवः ताडनाच्चडा शब्दम् कालमेकतडिध्वनि शुशुभादेरङ्गमध्ये मल्लौ नाट्ये नडाविव इभेन्द्राविव दीर्घाङ्गौ मृगेन्द्राविव चोद्भटौ द्वयोश्च युध्यतो राजन्परस्परजिगीर्षया विस्फुलिङ्गान् क्षरन्त्यौ द्वे गदे चूर्णी बभूवधूः कंसप्रकुपितं यक्षं मुष्टिनाभिजखानः शङ्खचूडोपितं कंसमुष्टिना तं तदा च मुष्टामुष्टितयोरासीद्दिनानां सप्तविंशतिः द्वयोरक्षीणबलयोर्विस्मयं गदयोस्ततः शङ्खचूडं सङ्गृहीत्वा कंसो दैत्याधिपो बली बलाचिक्षेपसहसा व्योम्नि तं शदयोजनं शङ्खचूडः प्रपतित किञ्चिद्व्याकुलमानसः कंसं गृहीत्वा नभसि चिक्षेपायुतयोजनम् आकाशात्पतित कंस किञ्चिद्व्याकुलमानसः यक्षं गृहीत्वा सहसा पादयाम स भूतले शङ्कचूडस्थं गृहीत्वा बोधयामास भूतले एवं युद्धे सम्प्रवृत्तेश्चकम्बे भूमिमण्डलम् मुनीन्द्रः सर्ववित्साक्षात् गर्गाचार्यसमागतः रङ्गेषु वन्दितस्ताभ्यां कं सम्प्राहोर्जया गिरा श्रीगर्ग उवाच युद्धं मा कुरुराजेन्द्रविफलोऽयं रणोत्र वै त्वत्समानो ह्ययं वीरशङ्खचूडो महाबलः तव मुष्टिप्रहारेण भृश्यमैरावदो गजः जानुभ्याम् धरणीं स्पृष्ट्वा कश्मलम्बरमं व्ययौ अन्येऽपि बलिनो दैत्या मुष्टिनादे शङ्खचूडो न पतितः सन्देहो नास्ति तच्छृणु परिपूर्णतमो यो वयसोऽपि त्वां खादयिष्यदि तदैनं शङ्खचूडाख्यं शिवस्यापि वरोऽर्जितं तस्मात् प्रेम प्रकर्तव्यं शङ्खचूडे यदुद्वः यक्षराच्चत्वया कं सेकर्तव्यं श्रीनारद उवाच गर्गेणोक्तौ तदात्तौ द्वौ मिलित्वाध परस्परं परमां चक्रदु प्रीतिं शङ्कचूड यदुद्वहौ अधकंसं संसनुज्ञाप्य गृहं गन्धुं समुद्यतः गच्छन् मार्गे शृणोद्रात्रौ रासगानं मनोहरम् तालशब्दानुसारेण सम्प्राप्तो रासमण्डली रासेश्वर्यासमं रासे, रासे पश्यद्रासेश्वरं हरिम् श्रीराधयालङ्कृतवामबाहुं स्वच्छन्दवक्रीकृतदक्षिणाङ्घ्रिं वंशीधरं सुन्दरमन्दहासम्भ्रूमण्डलैर्मोहितकामराशिम् वज्राङ्गनायूधपदिं व्रजेश्वरं सुसेवितं चामरच्छत्रकोटिभिः विज्ञाय कृष्णं ह्यधिकोमलं शिष्युं गोपीं समाहर्तुमलं मनोऽकरोत् बहुलाश्व उवाच किम्बूव रासे शङ्खचूडे समागदे एतन्मे ब्रूहि विप्रेन्द्रत्वम् परावरवित्तमः श्रीरानद उवाच श्रीनारद उवाच व्याख्राननम् कृष्णवर्णम् तालवृक्षदस्योच्छ्रितम् भयङ्करम् ललज्जिह्म् दृष्ट्वा गोप्योदितत्र दुद्रुवुः सर्वदो गोप्यो महान् कोलाहलो भवद आहाकारस्तदैवासीत् शङ्खचूडे समागदे शतचन्द्राननं गोपीं गृहीत्वा यक्षराट्खलः दुद्रावासूतरामाश्यां निःशङ्कमपीडितः रुदन्तीम् कृष्णकृष्णे दिक्रोशन्तीम् भयविह्वलाम् तमन्वधावच्छ्रीकृष्णशालहस्तोरुषाभृशम् यक्षो वीक्ष्यतमायान्तम् कृतान्तमिव दुर्जयम् गोपीम् त्यक्त्वा जीवितेच्छुप्राद्रवद्भयविह्वफलः यत्र यत्र गतो धावन् शङ्कचूडो महाफलः तात्र तात्र तत्र तत्र गधकृष्णशालहस्तो भृशम् वृषा हिमाचलतडम् प्राप्तशालमुद्यम्य यक्षराड तस्थौ तत्सम्मुखे राजन युद्धकामो विशेषतः तस्मै चिक्षेप भगवान् शालवृक्षम् भुजौ जेन खादेन पतिदो वृक्षो वादहदो यथा पुनरुद्धाय वैकुण्ठम् मुष्टिनाथम् जखानः जगर्जसहसा दुष्टो नादयम् मण्डलम् दिशाम् गृहीत्वा तं हरिर्दोर्भ्याम् भ्रामयित्वा भुजौ पादयामस भूपृष्ठे वादःपद्ममिवोद्धृतम् शङ्खचूडस्थं गृहीत्वा बोधयामस भूदले एवं युद्धे सम्प्रवृत्ते चकम्पे भूमिमण्डलम् मुष्टिना तच्चिरच्छित्वा तस्माच्चूडामणिं हरिः जग्राहमाधवसाक्षात् सुकृतिशेवधिं यथा तज्योतिर्निर्गतम् दीर्घम् द्योदयन्मण्डलम् दिशाम् श्रीदाम्नि श्रीकृष्णसखेलीनं जातं व्रजे नृप एवं हत्वा शङ्कचूडम् भगवान् मधुसूदनः मणिपाणिपुनःश्रीख्रमणिपाणिपुनशीघ्रमाययौरासमण्डलम् चन्द्राननायै च मणिम् दत्वा तम् दीनवत्सलः पुनर्गोपीणैः सार्धम् रासञ्चक्रे हरिस्वयम् इति श्रीगर्गसंहितायाम् वृन्दावनखण्डे रासक्रीडायाम् शङ्कचूडवधो नाम त्रयो विंशोऽध्यायः ओम् अध्यायम् 24 रासक्रीडायाम् आसुरी उपाख्यानम् श्रीनारद उवाच अथ गोपी गणैः सार्धम् पश्यन् श्रियमुन्नाडदम् पश्यन् श्रीयमुनातदम् विहर्तुमामयौ कृष्णो वृन्दारण्यम् मनोहरम् वृन्दावने चौषधयो लीनाजादाहरेर्वराद ता सर्वास्ांगना भूतवायू भूत सु लगोपीसमून चित्रवर्णेन रेमे वृंदावने राजन हरिवृंदवनेश का शुभे त्रिविधेन समीरेण सर्वदसुरभीकृते विलः सत्पुलिने रम्येवंशीवडविराजिते स्थितो भूद्राधया सार्धं रासश्रमसमन्विधः वीणाकालमृदङ्गादिमुरुयष्टियुतानि च ण्यंबरे ने दुसुर्गोपी गण सह दु पुष्प वर्षत्सु जयध्वनिुषु तोषयंद्यो हरि गोप्यो जगुस्त उत्तम काइमेखम दीपक चा परा मालकोशम् भैरवम् च श्रीरागम् च तथैव च हिन्दोलम् च जगुः काश्चिद्राजन् सप्तस्वरैः सह काश्चित्तासाम् प्रमुग्धाश्च काश्चित्तासाम् प्रमुग्धाश्च काश्चिन्मुग्धा स्त्रियो नृप काश्चित् प्रौढा प्रेम परा श्रीकृष्णे लग्नमानसाः जारधर्मेण गोविन्दं काश्चिद्गोप्यो भजन्ती काश्चित् श्रीकृष्णसंहिता कन्दुकक्रीडने रदाः काश्चित पुष्पैश्च हरिणा क्रीडां चकृ परस्परं िल्लतासु धावन्ध्यक्वणन् नूपुरमे कलाः काश्चित् पिबन्दि सतदम्बलात् कृष्णाधरामृतम् काचिद्भुजाभ्याम् श्रीकृष्णम् योगिनामपि दुर्लभम् सङ्गृहीत्वा प्रफस्याल्या चक्रुरालिङ्गनम् महद मनोत्न्यो यदुराजा च गोपीनाम् भगवान् हरिः काश्मीरमुद्रिदो रेमेवने वृन्दावनेश्वरः काश्चिद्वीणाम् वादयन्त्य समम् वंशीधरेण वै काश्चित् मृदङ्गम् वादयन्त्यो गायन् भगवद्गुणम् काश्चिद्वै मधुरम् तालम् ताडयन्त्यो हरेः मुरयष्टिम् सङ्गृहीत्वा हरिणामाधवीतले कायन्द्यः सुस्थिरा भूमौ विस्मृत्य जगदः सुखम् काश्चिल्लतासु श्रीकृष्णम् भुजे बाहुम् निधाय च पृथक्चकारगोविन्दस्पृष्ट्वा तासामुरस्थलम् गोपीनां नासिकामुक्तावलिं तत्कुन्तलम् स्वयम् शनैः शनै शोभनं तच्चक्रे श्रीनन्दनन्दनः ताम्बूलं चर्विदम् ह्यर्धम् नीत्वा सद्योधगोपिकाः चर्वयन्द्यसुगन्धाढ्यमहो तासां काश्चिच्चामकबोलेषु द्वि अङ्गुलेन शनैः शनैः असन्ध्यस्ताडयन्त्यस्ता कदम्बेषु बलात्पृथक पुम्वेशनायक काश्चिन्मौलिकुण्डलमण्डिताः नृत्यन्तकृष्णपुरदश्रीकृष्ण इव मैथिल राधाव्यश्रधरा गोप्यश्चतचन्द्राननप्रभाः तोषयन्द्यश्च राधाम् तां तथा राधापदिम् जगुः काश्चित्ता सात्विकैर्भावै संयुक्ता प्रेमविह्वलाः योगी चास्तिदा भूमौ परमानन्दसम्प्लुताः काश्चिल्लतासु वृक्षेषु भूम्यां वै विदिशासु च पश्यन्तः श्रीपदिं देवं स्वस्मिन् वा मौनमास्थिताः एवं रास्ये गोपवध्वसर्वाः पूर्णमनोरथाः बभूवुरेत्य गोविंदं सर्वेषां भक्तवत्सलं यत् प्रसादस्तु गोपीनां प्राप्तो राजन्महामदे ज्ञानिनामपि नास्त्येवं कर्मिणां तु कुतश्च एवं श्रीकृष्णचन्द्रस्य हरिराधापदे प्रभोः रासे चित्रं यद्बूव तच्छृणुष्व महामदे मुनीन्द्र आसुरिर्नाम श्रीकृष्णेष्ठो महात नारदाद्रौ तपस्ते पे हरौ ध्यानपरायणः हृत्पुण्डरीके श्रीकृष्णम् ज्योतिर्मण्डलमास्थितम् मनोत्न्यम् राधया सार्धम् नित्यम् ध्याने ददर्शः एकदाध्यानमध्ये दुरात्रौ कृष्णो न वारं वारं कृतं ध्यानं खिन्नो जादो महामुनिः ध्यानादुद्धाय स मुनिकृष्णदर्शनलालसः नारायणाश्रमं प्रागाद्बदरीखण्डमण्डितं नददर्श लोकालोकगिरिं व्ययौ सहस्रशिरसं देवं न ददर्शस तत्र वै पप्रच्छ पार्षदान्तत्र क्व गदो भगवानितः न विद्मो भो वयं चोक्तो मुनिखिन्नमनस्तदा श्वेदद्वीपं ययौ दिव्यं क्षीरसागरशोभिदं तत्रापि शेषपर्यङ्गे न ददर्श हरिं पुनः तदा मुनिखिन्नमना प्रेम्णा पुलगिताननः पप्र पार्श्वदांस्तत्र क्व गतो भगवानिदः न विद्मो भो वयं चोक्तो मुनिश्चिन्तापरायणः किं करोमि क्व गच्छामि दर्शनं तत्कथं भवेद एवम् ब्रुवन्मनो यायी वैकुण्ठं प्राप्तवांस्ततः नापश्यत्तत्र देवेशं रमां वैकुण्ठवासिनीं न दृष्टस्तत्र भक्तेषु मुनिना सुरीणा नृप ततो मुनीन्द्रो गोलोकं स वृन्दावने निकुञ्जेऽपि न ददर्श तदा मुनिखिन्नमना श्रीकृष्ण विरहादुरः पप्रच्छ पार्षदांस्तत्र क्व गतो भगवानिदः ऊचुस्तम् पार्षदा गोपावामनाण्डे मनोहरे प्रश्निगर्भो यत्र जात तत्रैव भगवान् स्वयम् इत्युक्त आसुरिस्तस्मादस्मिन्नण्डे समागतः हरिम् ह्यपश्यन् प्रचलन् कैलासम् प्राप्तवान् मुनिः तत्र महादेव कृष्णध्यानपरायणम् नत्वापप्रच्छ तद्रात्रौ किन्न चेदा भगवन् सर्वब्रह्माण्डम् दृष्टमिदस्ततः आ वैकुण्ठाश्च गोलोकाद्भ्रमदा तद्दि तद्दिदृक्षुणा कुत्रापि देवदेवस्य दर्शनम् न बभूव मे श्रीमहादेव उवाच धन्यस्त्वमासुरे ब्रह्मन् कृष्णभक्तोस्य हैतुकः दिदृक्षुणा त्वयासं कृत्वम् वेत्मि महामुने कर्मेन्द्रियाणीह यथा रसादीन् तथा सकामा मुनयः सुखम् यद मनाग्न मनाग्नजानन्दिजनैरपेक्ष्यम् जानन्दि परम् निर्गुणलक्षणम् तद हंसं मुनिम् दुःखगदम् मखो दद्धौ यः सर्वदो मोचयितुम् गतस्त्वरम् सोऽद्यैव वृन्दा विपिने सखी जह्नैः करोदिरासम् रसिकेश्वरस्वयम् षाण्मासिकी चाद्यकृता निशीधिनी स्वमायया देववरेण भो मुने अहम् गमिष्यामि तदेव त्वमेव गच्छाशु मनोरथम् यथा इति श्रीगर्गसंहितायाम् वृन्दावनखण्डे रासक्रीडायाम् आसुर्युपाख्यानम् नाम चतुर्विंशोऽध्यायः ओ अध्यायम् 25 रासक्रीडायाम् शिव तथा आसुरिस्तवनम् श्री नारद उवाच एवं विचिन्त्यमनसा शिवो वासुरिणा सह तौ कृष्णदर्शनार्था यजग्मधुर्व्रजमण्डलं दिव्यद्रुमलता कुञ्जतोलिकापुञ्जशोभितां पश्यन्तौ तौ दिव्यभूमिं पलिन्ती निकडे गतौ गोलोकवासिन्यो नार्यो वेत्रहस्ता महाबलाः चक्रो बलात्तन्निषेधम् मार्गस्थाद्वारपालिकाः तावूच दुश्चागदौ स्वः कृष्णदर्शनलालसौ तावाहुर्नृपशार्दूलमार्गस्थाद्वार पालिकाः द्वारपालिका पूजुः सर्वतो वृन्दकारिण्यं कोडिशकोडिशो वयं राक्ष रासरक्षां सदा कुर्मोऽन्यस्ता कृष्णेन भो द्विजौ एकोऽस्ति पुरुषकृष्णो निर्जने रासमण्डले अन्योन यादिरहसि कोऽपि यूधं विना क्वचिद चेद् दिदृक्षू युवां तस्य स्नानं मानसरोवरे कुरुतं तत्र गोपि त्वं प्राप्या शिव्रजदं मुनि श्रीनारद उवाजा युत्युक्तौ तौ मुनिशिवौ स्नात्वा मानसरोवरे प्राप्य कोपी प्य सह सा जग्मसम्डे सौवर्ण प्रखचित पदरागभूमिमनोहरे माधवीलिका वृंदकदंबाचाशुभे सर्वकौशले, यमुना रत्नसोपानतोलिकाभिर्विराजिते मयूरकंसदात्यूहकोकिलैकुजिते परे यमुना निला सभा नीलनीलैजस्तरुपल्लवशोभिदे सभामण्डपविधिभिप्राङ्गणस्तम्भपङ्क्तिभिः पदत्पताकैर् दिव्याभैः सौवर्णैः कलशैर्वृते श्वेतारुणैः पुष्पसंगै पुष्पमन्दिरवर्त्मभिः अलिकोलाहलैर्व्याप्ते वादित्रमधुरध्वनौ सहस्रदलपद्मानं वायुना मंदगामिना शीतलेन सुपुण्येन सर्वदसुरभीकृते तस्मिन्निकुञ्जे श्रीकृष्णं कोडिचन्द्रप्रकाशया पद्मिन्याकं सगामिन्याराधया समलङ्कृतं स्त्रीरत्नैरावृतं शश्वद्रासमण्डलमध्यगं कोडिमन्मथलावण्यं श्यामसुन्दरविग्रहम् वंशीधरम्बिदपडं वेत्रपाणिं मनोहरं श्रीवत्साङ्गं कौस्तुभिनं वनमाला विराजितं क्वणन्नूपुरमञ्जीर काञ्चिकेयूरभूषितं हारकङ्कणबालार्क कुण्डलद्वयमण्डितं कोडिचन्द्रप्रतिकाशमौलिनं नन्दनन्दनम् नं दानदक्षैः कडाक्षैश्च हरन्दम् योषिताम् मनः दूरातपश्यताम् राजन् आसुरीशौकृताञ्जली गोपीजनानाम् सर्वेषाम् पश्यताम् नृपसत्तम नत्वा श्रीकृष्ण पादाब्जमूच दुर्हर्षविह्वलौ द्वावूचतुः कृष्णकृष्ण महायोगिन्देवदेव जगत्पदे पुण्डरीकाक्षगोविन्दगरुडध्वच ते नमः जनार्दनजगन्नाथपद्मनाभक्त्रिविक्रम दामोदरकृषिकेशवासुदेव नमोऽस्तु दे अद्यैव देव परिपूर्णतमस्तु साक्षात् भू भूरिभारहरणाय सदांशुभयं प्राप्तोऽसि नन्दभवने परथपरस्त्वं कृत्वा हि सर्वनिजलोकमशेषशून्यम् अंशांशकांशकलयाभिरुदाभि राम राममावेश पूर्णनिजयाभिरदिवयुक्तः विश्वं बिभर्षिरसरासमलङ्करोषि वृन्दावनं च परिपूर्णतमः स्वयं त्वं गोलोकनाथगिरिराजपदे परेश वृन्दावनेश कृतनित्यविहारलीलराधापदे व्रजवधूजनगीतकीर्ते गोविन्दगोकुलपदे किल ते जयोस्तु श्रीमन्निकुञ्जलधिका कुसुमाकरस्त्वं श्रीराधिका हृदयकण्ठविभूषणस्त्वं श्रीरासमण्डलपदिर्व्रजमण्डलेशो ब्रह्माण्डमण्डलमहीपरिपालकोऽसि श्रीनारद उवाच तदा प्रसन्नो भगवान् राधया सहोतो हरिः मन्दस्मिदो मुनिम् प्राहमेघगम्भीरया गिरा षष्टिवर्षसहस्राणि युवयोस्तपतोत्तपः मद्दर्शनं तेन जातं सर्वतो नैरपेक्षयोः निष्किञ्चनो यः शान्तश्चाजादशत्रुः समत्सखा तस्माद्युवाभ्या मनसा व्रियदा मीप्सिदोवरः शिवासुरीवूचदुः नमोऽस्तु भूमन्युवयोपदाब्जे सदैव वृन्दावनमध्यवास न रोचदे नोऽन्यमदस्त्वदङ्घ्रेर् नमो युवाभ्यां हरिराधिकाभ्यां श्रीनारद उवाच तथास्तु चोक् भगवान् वृन्दारण्ये मनोहरे कालिं दीनिकटे राजन्रासमण्डलमण्डिते नि कुञ्चपार्श्वे पुलिनेवंशीवडसमीपदः शिवोऽपि चासुरिमुनिर्नित्यं वासं चकारः अथ कृष्णो रासलीलाञ्चक्रे पद्माकरे वने पतत्सुगन्धिरजसि गोपीभिकुले एवं रात्रिकृत्वा एवं षण्मासिकी रात्रिकृदा कृष्णेन मैथिलगोपीनां रासलीलायां व्यधीता क्षणवत्सुखैः अरुणोदयवेलायां स्वगृहान् व्रजयोषितः यूधी भूत्वा ययुराजन् सर्वा पूर्णमनोरथाः श्रीनन्दमन्दिरं साक्षात् प्रययौ नन्दनन्दनः वृषभानुपुरम् प्रागाद् वृषभानुसुधात्वरम् एवं श्रीकृष्णचन्द्रस्य रासाख्यानं मनोहरं सर्वपापहरं पुण्यं कामदं मङ्गलायनं त्रिवर्ग्यदं जनानां तु मुमुक्षूणां सुमुक्दिदं मया तवाग्रे पथितं किं भूय श्रोतुमिच्छसि इति श्रीगर्गसंहितायां बृन्दावनखण्डे रासक्रीडायाम् शिव तथा आसुरिस्तवनम् नाम पञ्चविंशोऽध्यायः ओम् शङ्खचूडोपाख्यानम् श्रीबहुलाश्व उवाच अखासुरादिदैत्यानाम् ज्योतिकृष्णे समाविशद श्रीदाम्निशङ्खचूडस्य कस्माल्लीनं बभूवः यद्वदमः बुद्धित्वम् परावरवित्तम अहो श्रीकृष्णचन्द्रस्य चरितं परमाद्भुतं पुरा गोलोकवृत्तान्तम् नारायणमुखाच्छ्रुदं सर्वपापहरम् पुण्यं शृणुराजन्महामदे राधा श्रीर विरजा भवन राधाश्रीर्विजाच ह राधा प्रिया दी व्रीकृष्ण राधिका समया राजन साराजनकोडिचंद्र चंद्रप्रकाशया कुंजे विरजया रे मे ये का प्रभु सपत्नी सखितं कृष्णं राधा श्रुत्वा सखि मुखद अतीव विमना जादा सपत्नी सौख्य दुःखिता शतयोजनविस्तारं शतयोजनमूर्ध्वगं कोड्यश्विनी समायुक्तं कोडिसूर्यसमप्रभं विचित्रवर्णसौवर्णमुक्दामविलम्बितम् पताकाके मगलशैकोडिभिर्मण्डितं रथं समारुह्य सखीनां साव्येत्रहस्ताैर्दशार्बुदैः हरिं द्रष्टुं जगामाशु श्रीराधा भगवत्प्रिया तन्निकुञ्जे द्वारपालं श्रीदामानं महाबलं हरिन्यस्तं समालोक्यतं निर्भर्स्य सखीजनैः वेत्रय सन्ताड्य सखसा द्वारि गन्तुं समुद्यता सखी कोलाकलं श्रुत्वा हरिरन्तरधीयत राधाभयाच्च विरजा नदी भूत्वा वह तदा कोडियो जनमायामङ्गोलोकं सखसा नदी सख सा कुण्डलीकृत्वा शुशुभेरिवावनिम् रत्नपुष्पैर्विचित्राका यथोष्णिङ्मुद्रिदा तथा हरिं गतं तम् विज्ञाय नदीभूतां च दां तथा आलोक्य तन्निकुञ्जं च स्वकुञ्जम् राधिकाययौ अथ कृष्णो नदीभूतां सविग्रहां चकाराशुस्वरेण नृपेश्वर पुनर्विरजया सार्धं विरजाधीरजेवने निकुञ्जवृन्दकारण्ये चक्रेरासं हरिस्वयं विरजायां सप्तसुता बभूवु कृष्णतेजसा निकुञ्जं तेह्यलं चकृशिशवो बाललीलया एकदा धैकलिर भूल् लघुर्ज्येष्ठश्च ताडितः पलायमानो भयमृन् भयभृन् माधुको माधुक्रोडे जगामः तल्लालनम् समारेभे समाश्वास्य सुदं तदा वै भगवान् साक्षात् तत्रैवान्तरधीयत रुषा सुतं शशाभोयं श्रीकृष्णविरहातुरा त्वं जलं भवदुर्बुद्धे कृष्ण कृष्णविच्छेदकारकः कदापि त्वं जलं मर्त्यान्नपि कदाचन ज्येष्ठान् शशा व्रजदमेदिनीं कलिकारकाः जलरूपा पृथग्ज्ञानान्न समेधा भविष्यध नैमित्तिकं च भवता मेलनं स्यात्सदालये श्रीनारद उवाच युद्धं देमादृशापेन धरणीं वै समागताः प्रियव्रतरधाङ्गानां परिभासु समास्थिताः लवणेक्षु सुरासर्पेर्दधिदुग्धजलार्णवाः बभूवु सप्तते राजन्नक्षोभ्याश्च दुरत्ययाः दुर्विगाह्याश्च गम्भीरा आयामं लक्षयो जनाद द्विगुणं द्विगुणं जातं द्वीपे द्वीपे पृथक् पृथक् अध पुत्रेषु यादेषु पुत्रस्नेहादिविह्वला स्वप्रियां विरहिणीमेत्य कृष्णो वरम् ददौ कदा न देमे विच्छेदो मयि भीरुभविष्यति स्वतेजसा स्वपुत्राणाम् सदा रक्षाम् करिष्यसि अधरादाम् विरहिणीम् ज्ञात्वा कृष्णो हरिस्वयम् श्रीदाम्ना सह वैदेकस्तन्निकुञ्जम् समाययौ निकुञ्जद्वारि सम्प्राप्तम् ससखं प्राणवल्लभं वीक्ष्यमानवती भूत्वा राधाप्राहरिं वचः तत्रैव गच्छयत्रा भूस्नेहस्ते नूतनोहरे नदीभूताहि विरजानदो भवितुमर्हसि गुरुवासं तन्निकुञ्जे मया ते किं प्रयोजनं श्रीनारद उवाच इति श्रुत्वा भगवान भगवान् तन्निकुञ्जम् जगामः श्रीकृष्णमित्रम् श्रीदामराधाम् प्राहरुषावचः परिपूर्णतमः साक्षात् श्रीकृष्णो भगवान् स्वयम् असङ्ख्यब्रह्माण्डपदिर्गोलोकेषु विराजते त्वादृश्यकोडिशक्दीकर्तुम् शक्यः परात्परः तम् विनिन्दसि राधे त्वं मानं मा कुरु मा कुरु वाचा। हे मूढपितरं स्तुत्वा मादरं मां विनिन्दसि राक्षसो भव दुर्बुद्धे गोलोकाच्च बहिर्भव श्रीदामोवाच अनुकूलेन कृष्णेन जादम्मानं शुभे तव तस्मात् भुवि परात् कृष्णात् परिपूर्णतमात् प्रभो शतवर्षम् देवि योगो भविष्यदिनसंशयः श्रीनारद उवाच एवम् परस्परं शाप स्वकृताद्भयभीदयोः अतीवचिन्तां गदयो राविरासीत् स्वयं प्रभुः श्रीभगवानुवाच वचनं वै स्वनिगमं दूरीकर्तुं क्षमोऽस्म्यहं भक्तानां वचनं राधे दूरीकर्तुं न च क्षमः मा शोचं गुरुकल्याणि वरं मे शृणु राधिके मासं मासंवियोगान्धे दर्शनं मे भविष्यदि भुवो भारावताराय कल्पे भक्तानां दर्शनं दातुं गमिष्यामि त्वया सह श्रीदमन् शृणु मे वाक्यमंशे न त्वसुरो मे करिष्यसि मद्धस्ते च ते मृत्युर्भविष्यदिन संशयः पूर्वं प्राप्स्यसि वरान् मम श्रीनारद उवाच ंशापेन श्रीधामापुरा पुण्यजनालये सुधनस्य गृहे जन्मलेभिराजन्महातपः शङ्खचूडयिदि ख्यातो धनदानुचरो भवद तस्माच्छ्रीधाम्नि तज्योतिर्लीनं जातं विदेशराट स्वात्मा रमो लीलया सर्वकार्यम् स्वस्मिन् धाम्नि ह्यद्वितीयकरोति यत् सर्वे सर्वरूपो महात्मा चित्रम् नेदम् नौमि कृष्णा यतस्मै इदम् मया ते कथितम् मनोहरम् वैदेहवृन्दावनखण्डमग्रदः शृणोति चैतचरितम् नरो वरः पदं पदम् पुण्यतमम् प्रयादितः इति श्रीगर्गसंहितायां वृन्दावनखण्डे शङ्खचूडोपाख्यानं नाम षड्विंशोऽध्यायः समाप्तोऽयं वृन्दावनखण्डः ओम्